पञ्चमोऽध्यायः ओ अस्य श्री उत्तरचरित्रस्य रुद्रऋषिः महासरस्वती देवता अनुष्टुप्छन्दः ओमा शीबीज्यस्तवम् साववेदस्वरूपम् महासरस्वती प्री उतरचरपाठे विनियो ध्यान ओम, घंटाशूलहला शख मुसले चक्रम धनुस्यक हस्ताब्जती घनारसीता शुतु्य प्रभा गौरीदेहसमुद्भवाम् त्रिजगतामाधारभूताम् महापूर्वामत्र मनुभजे शुम्भादिरैत्यार्दिनी ॐ क्लीम् ऋषिरुवाच पुरा शुम्भनिशुम्भाभ्यासुराभ्याम् सजीपतेः त्रैलोक्यम् यज्ञभागाश्च हृदा मदबलाश्रयात् तावेव सूर्यताम् तद्वदधिकारम् तथैन्दवम् कौबेरमथयाम्यम् च चक्राते वरुणस्य च तावेव पवनद्धिम् च चक्रतुर्वह्निकर्म च ततो देवा विनिर्धूताभ्यष्टराज्याः पराजिताः हृताधिकारास्ति सर्वे निराकृताः महासुराभ्याम् ताम् देवीम् संस्मरन्त्यपराजिताम् तयास्माकम् वरो दत्तो यथापत् सुस्मृताखिलाः भवताम् नाशयिष्यामि तत्क्षणात् परमापदः इति कृत्वा मतिम् देवा हिमवन्तम् नगेश्वरम् जग्मस्तत्र ततो देवीम् विष्णुमायाम् प्रतुष्टुवुः देवा ऊचुः नमो देव्यै महादेव्यै शिवायै सततम् नमः नमः प्रकृत्यै भद्रायै नियताः प्रणतास्वताम् रहौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्दुरूपिण्यै सुभायै सततम् नमः कल्याण्यै प्रयताम् वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः नैरृत्यै भूभृताम् लक्ष्म्यै सर्वाण्यै ते नमो नमः दुर्गायै दुर्गपालायै सादायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततम् नमः अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यैकृत्यै नमो नमः यादेवी सर्वभूतेषु विष्णुमाजेति शब्दिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु विष्णुमाजेति शब्दिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु विष्णुमाजेति शब्दिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु बुद्धिरूपेण संस्थिता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 नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै नमो नमः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 यादेवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु दे तृष्णारूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता नमस्तस्यै नमो नवः यादेवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूरेषु लज्जारूपेण संश्रिता नमस्तस्यै नमो नमः यादेवी सर्वभूरेषु लज्जारूपेण संश्रिता नमस्तस्यै नमो नमः यादेवी सर्वभू रेषु लज्जारूपेण संश्रिता नमस्तस्यै नमो नमः यादेवी सर्वभूदेषु शान्तिरूपेण संश्रिता नमस्तस्यै नमो नवः यादेवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमो नवः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु कान्तिरूपेण संस्थिता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 नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु वृत्तिरूपेण संश्रिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु वृत्तिरूपेण संश्रिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु वृत्तिरूपेण संश्रिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु स्मृतिरूपेण संश्रिता नमस्तस्यै नमो ऊनमः यादेवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै नमो ऊनमः यादेवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु दयारूपेण संस्थिता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 नमस्तस्यै नमो नमः या देवी सर्वभूते शुभ्रान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूते शुभ्रान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः इन्द्रियाणामधिष्ठात्रीभूतानाम् चाखिलेषु या भूतेषु सततम् तस्यै व्याप्तिदेव्यै नमो नमः क्षितिरूपेण या कृत्स्नवेतद्व्याप्यस्थिता जगत् नवस्तस्यै नमो नमः क्षितिरूपेण या कृष्णवेतद्व्याप्यस्थिता जगत् नमस्तस्यै नमो नमः क्षितिरूपेण या कृत्स्नवेतद्व्याप्यस्थिता जगत् नवस्तस्यै नमो नमः सुरा सुरैः पूर्वमभीष्टसंशयात् तथा सुरेन्द्रेण दिनेषु सेविता करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहम् तु चापदः या साम्प्रतम् चोद्धर दैत्यताभितैः अस्माभिरीशाचसुरैर्नमस्यते या च स्नातुमभ्याययोतो ये जाह्नव्यानृपनन्दन सा ब्रवीतान्सुरान्शुभ्रोर्भवद्भिः स्तूयतेऽत्रका शरीरकोशतश्चास्याः समुद्भूता ब्रवीच्छिवा सोत्तम् ममैतत्क्रियते शुम्भदैत्यनिराकृतैः देवैः समेतैः समरे निशुम्भेन पराजितैः शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका कौशिकीति समस्तेषु ततो लोकेषु गीयते तस्याम् विनिर्गता कृष्णा भूत्सापि पार्वती कालिकेति समाः ख्याता हिमाचलकृताश्रया ततोऽम्बिकाम् परम् रूपम् बिभ्राणाम् सुमनोहरम् ददर्शचण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ताभ्याम् शुम्भाय चाख्याता ख्याता अतीव सुमनोहरा काप्यास्ते स्त्रीमहाराजभासयन्ती हिमाचलम् नैव ता च क्वचिद्रूपम् दृष्टम् केनचिदुत्तमम् ज्ञायताम् काव्यसौ देवी गृह्यताम् चासुरेश्वर स्त्रीरत्नमति चार्भङ्गी द्योतयन्ती दिशस्विषा सा तु तिष्ठति दैत्येन्द्र यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो त्रैलोक्येतु समस्तानि साम्प्रतम् भान्ति ते गृहे गजरत्नं समानीतो गजरत्नम् पुरम् धरात् पारिजाततरुश्चायम् तथैवोच्चैः श्रवाहयः विमानम् हंस संयुक्तमेतत्तिष्ठति तेऽङ्गणे रत्नभूतमिहानीतम् यदासीद्वेधसोऽद्भुतम् निधिरेष महापद्मः समानीतो धनेश्वरात् किञ्जल्किनीम् ददौ चाभिर्मालामम्लानपङ्कजा छत्रम् तेवारुणम् गेहे काञ्चनस्रावि तिष्ठति तथा यम् स्यन्दनवरो यः पुरासीत् प्रजापतेः मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता पाशः सलिलराजस्य परिग्रहे निशुम्भस्याभिजाताश्च समस्ता रत्नजातयः वह्निरपि ददौ तुभ्यमग्निशौचे च आसी एवम् दैत्येन्द्ररत्नानि समस्तान्याहृतानि ते स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ऋषिरुवाच निशम्येति वचः शुम्भः स चण्डमुण्डयोः प्रेषयामास सुग्रीवम् दूतम् देव्या महासुरम् इति चेति च वक्तव्या सा गत्वा वचनान् मम यथा चाभ्येति सम्प्रीत्या तथा कार्यम् त्वया लघु स गत्वा यत्रास्ते शैलोद्देशेति शोभने सा देवीताम् ततः प्राहश्लक्ष्णम् मधुरया गिरा देविदैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः दूतोऽहम् प्रेषितस्तेन त्वत्सकाशमिहागतः अव्याहताज्ञः सर्वासु यः मम त्रैलोक्यमखिलम् मम देवावशानुगाः यज्ञभागानहम् सर्वानुपाश्नामि पृथक् प्रुछक त्रैरोऽप्येवरत्नानि मम वश्यान्यशेषतः तथैव गजरत्नम् च श्रुत्वा देवेन्द्रवाहनम् क्षीरोदमथनोर्भूदमस्वरत्नम् ममामरैः उच्चैः श्रवससाज्ञम् तदत्प्रणिपत्य समर्पितम् यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च रत्नभूतानि भूतानि तानि मय्येव स्त्रीरत्नभूताम् त्वाम् देवि रोके मन्यामहे वयम् सा त्वमस्मानुपागच्छयतो रत्नभुजो वयम् माम् वा ममानुजम् वापि निशुम्भमुर्विक्रमम् भय त्वम् चञ्चलापाङ्गिरत्नभूता शिवै यतः परमेश्वर्यमतुलम् प्राप्स्यसे मत्परिग्रहात् एतद्बुद्ध्या समालोच्य मत्परिग्रहताम् व्रज ऋषिरुवाच इत्युक्ता सा तदा देवी गम्भीरान्तस्मिता जगौ दुर्गा भगवती भद्रा धार्यते जगते। देव्युवाच सत्यमुक्तम् त्वया नात्र मिथ्या किञ्चित् प्रयोदितम् त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः किम् कथम् श्रूयतामल्पबुद्धित्वात्प्रतिज्ञायाकृता पुरा व्यो जयति सङ्ग्रामे यो मे व्यपोहति व्यो प्रतिपलो लोके समे भविष्यति तदा गच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः माम् जित्वा किञ्चिरेणात्र पाणिम् गृह्णातु मे लघु सूत उवाच अवलिप्तासि मैवम् त्वम् देवि ब्रूहि ममाग्ररः त्रैलोप्येकः पुमाम् स्तिष्ठेदग्रे शुम्भनि शुम्भयोः अन्येषामपि दैत्यानाम् सर्वे देवानवैयुधि तिष्ठन्ति सम्मुखे देवि पुनः स्त्रीत्वमेकिका इन्द्राद्याः सकला देवास्तस्थुर्येषाम् संयुगे शुम्भादीनाम् कथम् तेषाम् स्त्री प्रयास्यसि सम्मुखम् सा त्वम् गच्छ मयैवोक्ता पार्श्वम् शुम्भनिशुम्भयोः केशाकर्षनिर्धूतगौरवमागमिष्यसि देव्युवाच एवमेतद्बलि शुम्भो निशुम्भः साति वीर्यवान् करोमि प्रतिज्ञामे यदनालोचिता सत्त्वम् गच्छ मयोक्तम् ते यदेतत्सर्वमादृतः तदा चक्षवासुरेन्द्राय स च युक्तम् करोतु तत् ओ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देव्यादूतसंवादो नाम पञ्चमोऽध्यायः